मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 49 नैन् याज्ञवल्क्य विश्वामित्रसमागमं श्रीगणेशाय या नमः मुद्गल उवाच एकदा राजपत्नीसवनं शोकसमाकुल आय दर्शनार्थं तां पुत्रीं वस् धनान्विता रुचि कस्याश्रमं तत्र न ददर्शरथे नगरं नगरम् हेमशोभा्यं दृष्ट्वा सा विस्मिता भवत् नगरं दिव्यं देवैर्वा निर्मितं भवेद् क्व गतो मुनिशार्दूलो जमादामे भार्गवः एवं शोकसमयुक्ता विचारमकरोत् हृदि ददर्शपुरुषं कञ्चित्तं पप्रच्छभयातुरा पश्येदं नगरं ब्रूहि स जगादचतां मुने ऋचि पुरं देवि वयं तस्य प्रमार्जकाः पुनस्तं विस्मिता राज्ञी जगादवदसाम्प्रतं ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे तथेदि पुरुषो गत्वा कथयामासतां ततः सा स्वमादरमागम्य निनाय स्वगृहं पुरे जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा उवाच स्वसुतां राज्ञी पुत्रार्थं भावसं युधा मम पुत्रार्थमेवं च तव पुत्रार्थमादराद या च स्वस्वामिनं पुत्री समर्थं मुनिपुङ्गवम् ऋषिपत्नीपदी त्र याजयामास तव चकार सचकार सुतिपसयाध सपुरोडाशं ब्रह्मक्षत्र अतुलं तेज आवाह्य दध पत्नीक मुनि जगादतां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययं तव मात्रा तथान्यो वै भक्षितव्यश्युचिस्मिते तदा पुत्रसमायुक्ते युवां किल भविष्यथः यवमुक्त्वा मुनिस्तीर्थे माध्याक्वार्थं ययौ किल पुत्र्या मात्रे स वृत्तान्धकदितत्साब्रवीत्सुधाम् त्वदीयो भक्षितव्यो मे त्वं प्रभुङ्क्ष्व वै तथा पुत्र्या कृतं सर्वं गदामादास्वमालयं राज्ञी गर्भवती जादा ब्राह्मणी च प्रजापदे ये मुनिना दृष्टास्त्युग्रतेजोधरा बभौ उवाच भर्गवः पत्नीं किं कृतः क्षात्र आदरः स्ववाचभयभीदादं व्यधिक्रमममुं चरोः तामुवाचमुनिस्तत्र विस्मितो मानसे भवद तव भ्राता तपस्वी च भविष्यति न तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति सोवाच स्वामिनं भीदाद्विजं पुत्रं तु मे प्रभो देहिनो जीवकादं करिष्यामि न संशयः ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा गर्भं विज्ञाप्य विष्णुं वै तपःसा तथा करोद तदस्तस्या भवत्पुत्रो जमदग्निर्महातपः तस्य पुत्रत्वमापेदे रामशस्त्रभृदां वरः नवमे गाधिपत्नी समासे पुत्रं तपोनिधिं विश्वामित्रमहाभागं सुषुवे प्रेमविह्वला स तु यौवनमापन्नं संस्थाप्य वनमादराद गाधिर्ययौ स्वराज्ये च तपस्ये कृतनिश्चयः तद्राज्यमकरोत्सर्वविश्वामित्रः प्रतापवान् यकदा मृगयार्थं वै प्रजगामः मृगयित्वा म्रग मृगान् राजाक्षुदितस्त्रिषितो भवद भ्रमन् समाययौसोऽपि वसिष्ठाश्रममुत्तमं प्रविश्य तत्र तं राजा ननाम ससैन्यो भोजितस्तेन कामधेनुबलेन सह भुक्त्वा तं प्रार्थयामास नन्दिनीं देहि मुने विश्वामित्रस्ततस्तस्मै न ददौतां महामुनिः ततो राजा बलान् नेतुं दूतानाज्ञापयत्खलः सर्वे ततः स्वयमुपाययौ कशाखा कैश्चतां ताडया ताडयामासुराग्रहाद केचित्तदो महत्सैन्यं निर्ममे तत्र धेनुका तदो युद्धमभूद्धोरं सैन्ययोरुभयोर्महद नष्टं सैन्यं च सम्पूर्णं विश्वामित्रस्य तत्क्षणात् सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौवनम् प्रधानेषु तपस्तेपे शङ्करस्य महात्मनः शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः अस्त्र विद्यां सुसम्पूर्णां प्राप्य स्वगृहसं ययौ पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुध विश्वामित्रो ममार्दासावग्न्यस्त्रेण तदाश्रमं वसिष्ठस्थं तदस्तत्र योधयामास शौनक ब्रह्मदण्डधर श्रीमान् सर्वास्त्राणि व्यमर्दयद ब्रह्मदण्डेन तस्यापि कृतस्तेन पराजयः विश्वामित्रः पलायिष्टभयभीदः तदत् सुस्वान्त्विदो विप्रो वसिष्ठो ब्राह्मणैस्तदा स्वाश्रमं प्रविवेशाध विश्वामित्रो गृहं ययौ अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषदः ब्रह्मदण्डेन सर्वाणि ममास्त्राणि हतानि एवं स कृत्वा राज्यं त्यक्त्वा ययौवनं ब्राह्मणत्वप्रसिद्ध्यर्थं तदाप परमं तपः गायत्रीमन्त्रजाप्येन पुरश्चरणमार्गदः निराहारेण राजर्षितापयामास विष्टपं एवं दशसहस्राणि वर्षाणि जपतो ययुः तदो जगाद ब्रह्मा वरं ब्रूहि महामते स वव्रे ब्राह्मणत्वं मे देहि देवनमोऽस्तु ते तदा ब्रह्मा पुनप्राह तपस्वेदिजगाधिजं दशवारं विधौ तत्र समागत्य चदं मुनिम् अन्यं वरं ददानेश न जग्राकस बुद्धिमान् तपःप्रभावतस्तस्य व्याप्तमासीत् दिगन्धरं देवाद्या अभवन् सर्वे तदाज्ञावशवर्धिनः स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राहगाधिजः ब्रह्मर्षि मुख्यो वै जादस्तु तपसो बलाद भयभीताश्च ते तदेत्यूजुः प्रणम्यतं वसिष्ठो मुनिवर्यः स तं राजर्षिं जगादः विश्वामित्रसङ्क्षुभिदो वसिष्ठहननाय च नानायत्नांश्चकारापि न मा रमः मुनिः ततोदिदुःखितो भूत्वा संस्थितस्वाश्रमे विश्वामित्रो महाभागस्तपस्तेजो विराजितः तमाययौ महातेजा याज्ञवल्क्यप्रतापवान् ब्रह्मणोऽकसमुत्पन्नः साक्षाद्योगीश्वरो महान् तं न नाम यथा न्यायं पूजयामासभक्तिदः विश्वामित्रो महातेजा उवाचप्रकृताञ्जलिः अद्य मे सफलं जन्म तपःस्वाध्याय येनते ये च जादं ब्रह्मभूदस्य मानदा जातं ब्रह्मभूतस्य ब्रह्मं तद्वदस्व महामुने तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि प्रभो तत्सिदिश्रीमदांदे पुराणोपनिषदिश्रीमगले महापुराणे प्रथमे खंडे वक्रतुंडचरि याज्ञवल्य विश्वाम सगमो न मैको न पंचाश्त Om